अथत्रयो त्रयोविंशोऽध्यायः वैशम्पायन उवाच ततस्तम् निश्चितात्मानम् युद्धाय यदुनन्दनः उवाच वाग्मीराजानम् जरासन्धमधोक्षजः श्रीकृष्ण उवाच याणन ते राजोदुत्सहते मन अस्मदतमे ने सज्जी को युध नृपतिम वे महाद्युति जरासंधस्तो राजा सैन आदाय रोचनां माल्यं मङ्गल्यान्यपराणि च धारयन्नगदान्मुख्यान्निर्वृतिर्वेदनानि च उपतस्थे जरासन्धं ययुत्सुं वै पुरोहितः कृतस्वस्त्यय नो राजा ब्राह्मणेन यशस्विना समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् अवमुच्य किरीटं स केषां समनुगृह्य च वेलातिग इवार्णवः उवाच मतिमान् राजा भीमम् भीमपराक्रमः भीमयोत्स्ये त्वया सार्धम् वरम् एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः प्रत्युद्ययौ महातेजाः शक्रम् बल इवा सुरः ततः सम्मन्त्र्य भीमसेनो जरा सन्धमाससादयुयुत्सया ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ीरौ परमसंहृष्टवन्योन्यजयकाङ्क्षिणौ करग्रहणपूर्वम् तु कृत्वा पादाभिवन्दनम् कक्षैः कक्षाम् विधुन्वानावास्फोटम् तत्र चक्रतुः स्कन्धे दोर्भ्याम् समाहत्य निहत्य च ङ्गमङ्गैः समाश्लिष्य पुनरास्फालनम् विभो चित्रहस्तादिकं कृत्वा कक्षाबन्धम् च चक्रतुः गलगण्डाभिघातेन स स्फुलिङ्गेन चाशनिम् बाहुपाशादिकं कृत्वा पादाहत उरोहस्तं उरोहस्ततश्चक्रे पूर्णकुम्भौ प्रयुज्यतौ करसंपीडनं कृत्वा गर्जन्तौ वारणाविवा नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ लेनाहन्यमानौ तु अन्योन्यम् कृतवीक्षणौ सिंहाविवसु सङ्क्रुद्धा वा कृष्याकृष्य युध्यताम् अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः उभौ कट्याम् सुपार्श्वे तु दक्षवन्तौ च शिक्षितौ अधोहस्तम् स्वकण्ठे तुदरस्योरसि चाक्षिपत् सर्वातिक्रान्तमैर्यादम् पृष्ठभङ्गम् च चक्रतुः सम्पूर्णमूर्च्छाम् बाहुभ्याम् पूर्णकुम्भम् प्रचक्रतुः तृणपीडं यथा पूर्णयोगं समुष्टिकं। एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परं। तयोर्युद्धं ततो द्रष्टुम् समेताः पुरवासिनः ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः शूद्राश्च नरशार्दूलस्त्रियो वृद्धाश्च सर्वशः निरन्तरमभूत् तत्र जनौघैरभिसंवृतम् तयोरथभुजाघातान्निग्रहप्रह्रहात् तथा आसीत् सु भीमसम्पातो वज्रपर्वतयोरिवा उभौ परमसंहृष्टौ बलेन बलिनां वरौ अन्योन्यस्यान्तरम् प्रेप्सु परस्परजयैषिणौ तद्भीममुत्सार्यजनम् युद्धमासीदुपप्लवे बलिनोः संयुगे राजन्व्रत्रवासवयोरिवा प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः